तं राजसत्तमं प्रीतास्तदा मतिमतां वर सपितॄणां नियोगं तमनतिक्रम्यपार्थिवः चकारमृगयां कामी गिरिकामेव संस्मरन् अतीवरूपसम्पन्नां साक्षाच्छ्रियमिवापराम् अशोकैश्चम्पकैश्चूतैरनेकैरतिमुक्तकैः पुन्नगैः कर्णिकारैश्च बकुलैर्दिव्यपाटलैः पाटलैर्नारिकेलैश्च चन्दनैश्चार्जुनैस्तथा एतैरम्यैर्महावृक्षैः पुण्यैः स्वादुफलैर्युतम् कोकिलाकुलसन्नादं मत्तभ्रमरनादितं वसन्तकाले तत्तस्य वनं चैत्ररथोपमं मन्मथाभिपरीतात्मा नापश्यद्गिरिकां तदा अपश्यन् कामसन्तप्तश्चरमाणो यदृच्छया पुष्पसञ्छन्नशाखाग्रम् पल्लवैरुपशोभितम् अशोकंस्तवकैश्छन्नम् रमणीयमपश्यत अधस्तात् तस्य छायायाम् सुखासीनो नराधिपः मधुगन्धैश्च संयुक्तम् पुष्पगन्धमनोहरम् वायुना प्रेर्यमानस्तु धूम्राय मुदमन्वगात् तस्य रेतः प्रचस्कन्दचरतो गहने वने स्कन्दमात्रम् च तद्रेतो वृक्षपत्रेण भूमिपः प्रतिजग्राहमिथ्या मे न पते रेत इत्युत इदं मिथ्यापरिस्पन्नं रेतो मे न भवेदिति ऋतुश्च तस्याः पत्न्या मे नमोघ स्यादिति प्रभुः सञ्चिन्त्येवं तदा पुनह राजा विचार्य पुनः पुनः अमोघत्वञ्च विज्ञाय रेतसो शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य वै अभिमन्त्र्याथ तच्छुक्रमारात् तिष्ठन्तमाशुगं मत्प्रियार्थमिदं सौम्यशुक्रं मम नय गिरिकायाः प्रयच्छाशु तस्याह्यार्तवमद्य वै गृहीत्वा तत्तदाश्येन स्तूर्णमुत्पत्य वेगवान जवं परममास्थाय प्रदुद्रावविहङ्गमः तमपश्यदथायान्तं श्येनं श्येनस्तथा परः अभ्यद्रवचतं सद्यो दृष्ट्वैवामिशङ्कया तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः युध्यतोरपतरेतस्तच्चापि यमुनाम्भसि तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सराः मीन भाव भाव्ता बूववयम मुनाचरी श्य साद्रिका मत्स्य वासव जग्रहतरसोपेतृका म्यू कदाचिदी मत्सीताबंधुर्मत्जीन मासे च दशमे प्राप्ते तदा भरतसत्तमा उज्जह्नुरुदरात्तस्या स्त्रीं पुमां सञ्च आश्चर्यभूतं तद्गत्वा राज्ञेऽथ प्रत्यवेदयन् काये मत्स्या इमौ राजन्सम्भूतो मानुषाविति तयोः पुमां सं परिचरस्तदा समत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः साप्सरामुक्तशापाचक्षणेन समपद्यत या पुरोक्ता भगवता तिर्यज्ञो निगता शुभा मूषो जनयिव शापमोक्षमसी तत सा जनयिवातौ विशस्ता म्यघाति स्यज्य मत्म सा दिव्यंपम्य सिद्धर्षिचारणपथम जगामाथवरासरा सा कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी राज्ञा दत्ता च दासाय कन्येयन्ते भवत्विति रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः सा तु सत्यवती नाम मत्स्यद्घात्यभिसंश्रयात् आसीत् सा मत्स्यगन्धैव कञ्चित् कालम् शुचिस्मिता शुश्रूषार्थम् पितुर्नवम् वाहयन्तीम् जले च ताम् तीर्थयात्राम् परिक्रामन्नपश्यद्वये पराशरः अतीवरूपसम्पन्नां सिद्धानामपि काङ्क्षिताम्